मृगमध मोदाङ्कितं चन्दनं जाती चम्पकबिह्पत्ररचितम् पुष्पं च कल्पितं गृह्यता सौवरिणे मणिरत्नखण्डरचिते पात्रे घृतं पायसं भाक्षं पञ्चविधं पयोदधियुतं रम्पालम् शाकानामयुतं जलं रुचिकरम् कर्पूरखण्डो कर जलं ताम्बूलं मनसा मया विरचितम् भक्त्या प्रभु स्वीकुरु क्षत्रं चा शकं निर्मलं वीणा भैरिमृदङ्ग कालकल गीतं च नृत्यं तथा साष्टाङ्गः प्रणतिः स्तुति बहु हितं विहितं वा सर्वमेतत् क्षमस्व